गणेशपुराणम् उपासनाखण्डम् अध्ययं ट्वेल्व् सूत उवाच इति श्रुत्वादुवचनं निर्गतं ब्रह्मणो मुखाद् हर्षेण महदा युक्तो मुनिः पुनः व्यास उवाच अवधानं मया प्राप्तं पीत्वा वा गमृतं इदानीं श्रोतुमिच्छामि मन्द्रराजमिवम्पिदः को जजापकथं सिद्धिमवाप च गजाननाद एदं मे संशयं चिन्तित्वत्तोऽन्यो नास्ति मे गुरुः भृगुरुवाच इत्येवं मुनिना पृष्ठोऽसौ जगादवददां वरहा कृपया वनदं ब्रह्मा तं राजसत्तमा राजसत्तम वाचा साधुसाधुत्वया साधु त्वया पृष्टं पुण्यवानसि साम्प्रतं नस्य पुण्यवदां ब्रह्मन् कथाया श्रवणेरधिः उपासनाग मं बोधयाम्य हम स्न प्रज्ञाधि शिष्य यद गोप्यम न किंचन ओंकारी भगवान्द्रस्ते गणनायक यहां कार्य पूज्य से सौ विनायक निर्विघ्नकामनावद्भिर्नो चेद्विघ्नं करोति सः तथोङ्कारबीजयुक्त ओङ्कारपल्लवान्विदाः मन्त्राः सर्वागमे प्रोक्ता अन्ये ये निष्फलाश्च ते सदसद्व्यक्तमव्यक्तं सर्वं हि गणनायकः येवं सर्वे सिसिद्ध मुनिराक्षस कि गर्वास्नागा गुह्यकम उपास का गणेश अतएवणेशाधि परम किंचिन्न विदे इदानीं कथयिष्यामि कथामेकां पुरातनीं मन्द्रराजपेनायं यथा तुष्टो गजाननः कदाचिद्दैवयोगेन प्रलये समुपस्थिते वायुभिः पर्वताभिन्ना पदिताः परितोदिशम् तपन्दिद्वा दशादित्या शोषयित्वा जलं महद ज्वालामालीमहावह्निरखिलं ज्वलयत्यपि संवर्तकामहामेखा वर्षन्ति परितो जलम् अस्ति पमाभिस्तु धाराभिर्द्विजसतम उल्लङ्घयन्ति मर्यादां सागरास्सरितोऽपि च एवं सर्वे विनश्यन्ति आब्रह्मस्थावरादयः एवं मायामये नष्टे विकारे सौ गजाननः अणुभ्योऽणुधरं रूपं कृत्वा व्यवस्थितः ततः काले बहुतरे गदेन्ध्रतमसावृते एकाक्षरं पुनर्ब्रह्मनादयुक्तमजायत वैकारिकं पुनारूपं यदानन्दमयं स्थितं मायाविकारमासाद्य तदेवा भूत् गजाननः तदेव च सम्भूदा गुणासत्त्वं रजस्तमः ततस्त्रयः समुत्पन्ना विष्णुर्ब्रह्माहरोऽपि च मायया रजितं सर्वं त्रैलोक्यं सचराचरं ततस्तन्मायया भ्रान्ता बभ्रमुस्ते सुरास्त्रयः तमेव जनकं स्वस्य द्रष्टुं प्रष्टुम् समुत्सुकाः किमस्माभिकर्मकार्यमिति जिज्ञासया मुने एकविंशतिस्वर्गाणि पूर्वमूर्ध्वं विलोक्यते अन्तरीक्षं तथातिर्यक्पश्चात्पादालमाययुः अदृष्ट्वा परमात्मानं तपश्चेरुस्तदो भृशम् निराहारा जपपरादिव्यवर्षसहस्रकं श्रान्धा खेदमनुप्राप्तास्ततस्ते पृथिवीं पुनः विचिन्वतो ययोर्द्रष्टुं च सरिदसागरान् शैलान् शिखराणि गुहापि च तदो जलाशयं ते दुमहान्तं ददृशुशुराः नानाजलचरैर्वृक्षैः पक्षिभिर्विविधैर्युदं बलाकाभिश्चक्रवाकैर्हंसै कारण्डकैरपि नादिदं नलिनीजालं ना विशखण्डाशनिरतैः स्नात्वा विश्रम्य तत्तीरे समुत्तीर्य पुरोयुः नानावीतिसमायुक्तं महान्तं तं जलाशयं सुदुस्तरतरं चशनक्रसमाकुलं। पुंसां चषनक्रसमाकुलम् प्रलयानल प्रलयानलसन्निभम् कोडिसूर्यप्रदिकाश्यं तेजाराश्यं पुरो मुने चिन्ता मापुः परां ते दु तेजसा हृदददृष्टयः तदोगमनमार्गेण तेजो मध्याद्विनिर्गताः क्षुधा तृषा परिश्रान्ता निःश्वसन्तो मुहुर्मुहुः निन्दन्तश्च शपन्तश्च स्वात्मानं जातसाध्वसाः ततोदिकरुणाविष्ठो लोपाध्यक्षोऽखिलार्थविदर्शयामासत्तान् रूपं मनोनयननन्दनं पादाङ्गुलीनखश्रीभिर्जिदरक्दाब्जगेश्वरं रक्ताम्बर प्रभावातु जिद संध्याल कड़ीसूत्र प्रभाजाल जिद हेमाद्रिशेखरम खडग खेडधनुशक् शोभिचारुचुर्भुज सुवास पूर्णिमा चंद्र जिद का मुखांबुज प्रभायुक्तं पद्मचारुसुलेचनम् अनेकसूर्यशोभाजिन्मुकुडभ्राजिमस्तकं नानाताराङ्गिदव्योमकान्तिजिदुत्तरीयकं वराहदंष्ट्राशोभाजिदेकदन्तविराजिदम् ऐरावतादिक्पाल भयकारिः सुपुष्करं दृष्ट्वैव सहसा देवं प्रणेमुस्ते मुदा मुने पादाम्बुजमुपस्पृश्य ततस्तोत्रं प्रचक्रमुः यदि श्रीगणेशपुराणे उपासनाखण्डे गजाननदर्शनं नाम द्वादशोऽध्यायः Om